श्रीगणेशपञ्चरत्नस्तोत्रं प्रयर् जय गणेश जय गणेश जय गणेश पाहि मां जय गणेश जय गणेश जय गणेश रक्ष जय गणेश जय गणेश जय गणेश पाहि जय गणेश जय गणेश जय गणेश रक्ष स्तोत्रम् मीटर् पञ्चचामरम् मुदा करातमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशितेभदैत्यकं न दाशुभाशुनाशकन्नमामितं विनायकम् नदेतरादिभीगरन्नवोदितार्कभास्वरं न मत्सुरारिनिर्जरन्नदाधिकापदुद्धरं सुरेश्वरन्निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परन्निरन्तरं समस्तलोकशङ्करन्निरस्तदैत्यकुञ्जरम् रेतरोदरं वरं वरे भवत्रमक्षरं कृपाकरं क्षमाकरं मुदाकरय्यशस्करं मनस्करन्नमस्कृतान्नमस्करोमि भास्वरम् अकिञ्चनार्तिमार्जनं चिरन्दनोऽक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् प्रपञ्चनाशभीषणन् धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् निदान्दकान्ददन्तकान्तिमन्दकान्दकात्मजम् अचिन्त्यरूपमन्दहीनमन्दराय कृन्दनं कृदन्तरे निरन्तरं वसन्तमेव योगिनाम् तमेकदन्तमेव तं विचिन्तयामि सन्ततं महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् अरोगदा मदोषदां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैदि सोऽचिरात् जय गणेश जय गणेश जय गणेश पाहि मां जय गणेश जय गणेश जय गणेश रक्ष